अहमप्रदमजानदस्य पूर्वम् देवेभ्यमुदस्य नाभिः व्योमाददातिथयि देवमावाह अहमन्नमन्नमदन्तमद्मे पूर्वमग्नेरमिदन्नम्प्रोहाधासे अहमुत्तरेषु यात्तमस्य वजवः सुरम्भम् पश्यन्ति धीरा प्रचलन्ति पाकाः जहाम्यन्यजहाम्यन्यम् मानमर्थम् पर्येऽपि भुञ्चते ओ मा वन्नम् मनुष्योदयेन परागेन्नोकयेदेवेन्नम् यदुप्यते यत्र लोप्यते शतमीषा तनोमे बभूव महान्तौ चरोषकदुर्धेन पत्रौ दिवम् च पुष्णे च सागम् पिबन्तो न विनन्ति वेधसः नैतत् भोज भवति नागणीयः <वाँों> अन्नम् प्राणमन्नमपानमाहव अन्नम् प्रत्यन्दवदेवासमाहव अन्नम् ब्रह्माहप्रजननम् प्रजानाः मोघमन्नम् विन्दते अप्रजेदाः सत्यम् प्रवेमित्सस्य नार्यमनम् पुष्यविना भवति केवलादि अहम् के एकस्तनयन्वरिषन्नस्मि मादन् भवामि अदादित्या समन्धी देवीम् वाचमचने तयद्वाग्वदन्ति अहम् तावन्तामिलाम्ये यस्याम् देवादुषर्भोचनानि एकाक्षदान्ति पाजन् देवा उपजयवन्ति विश्वे पाजम् देवा उपजयवन्ति विश्वे पाजङ्गम् सर्वा प्रसवा मनुष्याः पाजेमाविश्वाभुवनान्यर्पिता मे अस्तु लोके परिमिता पदानि ब्राह्मणाय मनीषिणः गुहानिहिताने गयन्ति प्रियम् वाचा मनुष्या वदन्ति श्रद्धया अग्निः समिध्यते श्रद्धया मुञ्जते कविः श्रद्धाम् भगस्य मूर्धने प्रदावेदया मधे प्रियज्ञश्रद्धे ददतः प्रियज्ञश्रद्धे विनादतः प्रियम् भोज्यम् कृते यथा देव दे दे असुरेषु श्रद्धामुग्नेषु च कृते एवम् भोजे विजद्वसो अस्माकमुचितम् कृते श्रद्धान्ते पाविजमानाः पायुगोपा उपासते श्रद्धागुम्भदय्या भूत्या श्रद्धया हूयते हविः श्रद्धान् प्रातरहवामहे श्रद्धान् मध्यन्ति नम्बरे श्रद्धागुम्भौर्यस्य निमृजे श्रद्धे श्रद्धाभये हवाः श्रद्धादेवानधिवस्ते श्रद्धाविश्वमिदम् जगते श्रद्धा कामस्य मादरम् अविदावर्धयामजे ब्रह्मजानम् प्रथमम् पुरस्ता विजे पदस्वरुजा वेनावः सबुद्ध्नया कुमारस्य पिष्टाः विजाविदायाम्भोरयेण अन्तरिक्षम् विश्वलोपाविवेश तमर्के अभ्यर्थन्ति वत्सम् ब्रह्मदन्तम् ब्रह्मणा वर्धयन्तः ब्रह्मदेवान् जनयत् ब्रह्मविश्वमिदम् जगत् ब्रह्मणः क्षत्रम् निर्मितम् ब्रह्म ब्राह्मण आत्मना अन्तरस्मिन्निमे लोकाः अन्तर्विश्वमिदम् जगद् ब्रह्मैव भूतानाम् ज्येष्ठम्पर्जिलम् ब्रह्म देवास्त्रेयस्त्रिविंश ब्रह्माण्डनप्रजापते ब्रह्मणः विश्वाभूतानि नावेवान्तः समाहिता प्रजलन्तज्ञयः यज्ञानन् घृतम् सुबेरम् ब्रह्म समिद्भवत्याहुजावोतभद्रमक्रन् श्रीरन्तु गोष्ठरणयन्तस्मेपायहस्वय पूर्वेनाः इन्द्रायज्ञास्त्वम् भूयो भूया रजिमिदस्य वर्धयन् अभिर्णे वयम् जिरिन्द्रम् योऽयम् गावो मे देता कृषञ्चने अश्वेयम् च प्रतीकम् भरद्रम् ग्रहम्भातो प्रजापतेः सोऽयवतम् विशन्तेः शुद्धा पशुप्रमाणे भवस्तेनेषः हरिवो हे ये तस्य वन्द्याज उपेणपचनम् आदुकोषोपक्षदापरिणभस्यः मेयादिदेवयाः भवन्तपर्यादारिम्याः विपणरश्ने वा भवन्ते भुवना कविकृतो हतान्द्रमधाविचक्षणा विश्ववारावलिवभावले अन्या कामावदम् मजिमन्दामहव्रता विश्ववपरे प्रतरणादरन्ता अस्मे मेन्द्रमताभिचक्षेः श्रद्धेकमिन्दम् भोर्वापरञ्जलमालय क्रीडन्तर्यातोनाभिचष्टेः जायते पुनः हिरण्यवर्णा श्रेयप्पापगाया साजा यासाहम् देवाशिवेणमाचार्य आपो भद्रात् पश्यामि नाददाधेन्नो ददाधेत्प्रदाने नाव्यो मापलोयते किमापरेमाधेद्गहनङ्गभीरम् न भृत्यलमन्तर्हि न भेदः आमेतपादग्रस्पृशया तस्मार्धान्यन्न परः किम् जनादयेदम्प्रथमै यदान् नीषासन्महिमानः परस्ताहायः प्रवोचत् कुतः जाता कुलेयम् विदर्भे अथवास्य विसर्जनाय अथ को वे दगिनः भोम इयम् विशिष्टरिषदा बभूव यदि वादेव यदिषु मनसा वृक्षदेष्टभुवनानि धारयन् ब्रह्मवनम् ब्रह्मसमृक्षाधेत् यतो वा पृथगेनष्टदक्षः मनेषिणा मनसा विन्द्रवेमिव ब्रह्माधिभुवनानि धारयन् प्रातरग््यम् प्रातरिन्द्रगम् भवामहे प्रातमित्रावरुणा प्रातरश्मिना प्रादर्भगम् भोषणम् ब्रह्मणस्पतिम् राजस्वमुदरुद्रगम् भवेम प्रादक्षिदम्भगमुग्रगम् भवेम अयम्बुत्रमजितेषत्ताम् मन्यमानः पुरश्चित् राजा नित्यम् भगम् भगेवान् नः भगः प्रणोदनगोभिरश्वः भगः प्रणभन्तस्याम उदे भगवन्तः उदः प्रविष्टमुदवन्धे सूर्यस्य वयम् देवानागं सुमतो स्याम भगवम् वस्तुदेवाः येन वयम् भगवन्तः श्याम नन्ताभगतर्मयुद्या भवेमि समाभगपुरयेता भवेह य वशतोनुवन्दा पथिकाव्य पशुदे पदाय कर्वाचेरम् वचमिदम् भगण्णः वाचिनः वहन्तु अश्वापदे गोमदे अभुषासः वीरवते सदमुच्छन्तु भद्राः कृतम् दुहानाविश्वरीनाः यूयम्पादस्वस्तिभिस्तदानः स तृतीयाष्टकप्रारम्भः ओ अग्निर्नपा तुकृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् अविदासञ्जहोदना यस्य भान्तरश्मयो यस्य केतवः यस्येमाविश्वा भुवनानि सर्वाः सकृत्तिकाभिरविदम्बदानः अग्निर्नादेवस्वपिते दधातो प्रजापदे रोहिणी वेदपत्नीः विश्वरूपागृहति चक्रभानुः यज्ञस्य विश्वारूपाणि प्रतिमोदमाना प्रजापतिगम् भविता वर्धयन्ति प्रजा देवानामुपयात यज्ञम् सोमो राजा मृगशीर्षेणागन् शिवम् नक्षत्रम् प्रेमश्च धाम आप्यायमान बहुधा जनेषु वेदप्रजायमाने तथा तु नक्षत्रम् मृगशीर्षमस्य प्रेदमम् विजाना तस्मै चेदोम हविषाभिधेम सन्दनेष जशम् चतुष्पदे आद्रयाद्रप्रथमानयेति शेष्टो देवानाम् प्रजलग्निजानाः नक्षत्रमस्य हविषाभिधेम नः प्रजाम्रेदबीरान् हेते लुगश्च परिणामिनर्तो आद्रा नक्षत्रम् विषदामिन्नः मानोकम् सन्वदतापरादिम् पुनन्जितिस्पृणोद पुनर्वदो नः पुनरेताम् पुनो देवा भेन् विश्वस्य भद्रे जगदप्रतिष्ठा पुनर्वसो वर्धयन्ति पाठः बृहस्पतिप्रथमम् जायमानः पिष्यन्नक्षत्रमपि नभूव श्रेष्ठो देवानाम् पदनाल्यः सर्वाभयम् नष्यः पुरस्ताविदमध्यतो नः बृहस्पतिर्न परिपादपश्चात् बाधेताम् वेशोभयम् कृणुताम् सुवीर्यस्य पदयस्या माम् सर्पेभ्य विरत्तिष्टम् आश्रेयम् जितः पृथिवे क्षियन्ते हेन सर्वासोऽहमागमिष्ठाः विनेशो यस्याः हे लिमन्ते वे मुणसञ्चरन्ति एषा माश्रेणालयम् जिगामम् एभ्यः सर्पेभ्य मुदुगम् जोमि ओहोदाय मखासु अनायगदस्सुकृत्याः नक्षत्रे मागमिष्ठाः तथाभियज्ञम् प्रेतञ्जिषन्ताम् हे अग्निदग्धा येन अग्निदग्धाः हे मल्लाकम् पितरः क्षियन्ते यागस्त्यजनाप्रिद् यज्ञकम् सुगतम् जिषन्ताम् फल्कुनेनामसित्ताम् अर्धयमन्मरुणमित्रजाभयुंसनितारपुंसनेनाम् देवा जीवम् दल्पसंविषेम येनेमाविश्वाभुवनानि सञ्जिता यस्य देवान् दयम् निजेदः हर्यमाराजाचरस्तुष्मान् फल्गुनेनामिभोरा रवेते श्रेष्ठो देवानाहम् भगवो भगवति रत्वा फल्गुने स्तस्य वित्तान् अस्मभ्यम् क्षत्रमजनकम् सुवीर्यम्पदुपसन्नुदेह भगवः दादाः हेतृदादा भगवदेवे फर्गुणेदाविवेश भगस्येत्रम् प्रसभङ्गमेमदेवैमादम् मदेम आयाजिदेवस्य पितोपयाद शिरण् सुभगम् विर्मनामतम् प्रेक्षन्तम् परिम् पुण्यमच्च हस्तप्रेक्षत्वमदम् वधीयः दक्षिणेन ना प्रिर्भेमयेनताविदेय नास्ताय कृत्वा यज्ञम् क्षत्रमभ्येतिचित्रा सुभगंसङ्गम् रोचमाना रूपाणि विश्वा तन्नक्षत्रम् भोजितास्तमज्ञम् यज्ञम् वायुर्नक्षत्रमभ्येत्रनिष्ठा ऋग्वोषभोरोपाणः समेलयम् भुवनामाधरिश्वाः अमराजेः तन्नो वायुस्तुनादो तन्नक्षत्रम् भोजितास्तु मह्यम् तन्नो देवासोऽनुजानम् तु कामम्पक्षत्र वायुम् तु भीताः त्याघे तन्नो देवानुपदन्ते यज्ञाम् पश्चाद्पुरस्तानुभयम् नास्तु नक्षत्राणामधिपत्ते विशाखे श्रेष्ठाविन्द्राग्नेभुवनस्य लोपौ विषोषत्रोनुपपाधमानौ अपकृसण्णा पुरस्ताभ्यदल्पौर्णमाधेराय तस्याम् देवाभिसंवसन्तः उत्तमेणाकैगमादयन्ताम् तस पृच्छेदवत्याः ओर्णमाशुदगा चोभमाना अनुराधा अनुराधा देवं अनुराधा आव्यायन्ते वृन्दहायमाना यज्ञम्पसद्य अनोराधानन्तः सञ्जीवीराः चित्रनक्षत्रमुदका पुरस्तात् अनोराधान्मित्रयानेः इन्द्राध्येष्ठामनक्षत्रमेति यस्मिन् वृत्रम् वृत्ततोर्ये गतान्धुहानाः धनन्दरन्दरेष्ट्यम् पुरन्दराय प्रभाय विष्णवेः अखाढाय सहमानाय मेघेः इन्द्राय ज्येष्ठामधुमद्दुहाना प्रलङ्कनाय लोकम् मूलम् प्रयाम् वेदपदेम् विलेयतिपराज भिन्नक्षत्रम् वदिवः समर्दम्भो या यजमानाय मह्यम् हान्मार्जयधातो भवनक्षत्रमिते पराजेयम् वाचा निरयम् श्रवम् मृदाये श्रमस्तमह्यम् या दिव्याः मत्पयतादम्बभोगः या अन्तरिक्षमुदपार्थिपेरियाः यासामशायम् जिकामम् शाश्च गोप्यायाश्च नाद्याः समुद्रयाः राष्ट्रवेदन्ते कृतप्राधियाः राजामयन्ते नावश्रग्स्वनाभवन्त कर्णाविश्वे पशन्वन्त देवाः रषाठाभिनयन्ते यज्ञम् कर्णक्षत्रम् वसताम् मरुभ्यः निर्विष्टयजमानाय कम्पदाम् सुभ्याः कन्याय मदयस्वपेहसः कर्मगतस्वगतावदेः विश्वान्ते दे। यत्सर्वमेतत् सर्वम् तन्नो नक्षत्रमभजयद्विचित्या श्रीयन् तथा त्वम् भो लोकोद्ब्रह्मणा सञ्चते भो तन्नो नक्षत्रमभयद्विचष्टा अस्मिन् भयम् वदना सन्दये देवासो नुजानम् शृण्वन् श्रवणानुपदस्त्रिगोपा पुण्यामस्यापुषामः तत्र पुण्यकम् यजमानायम् भजे अष्टौ देवावसवः सौम्यातः स्ते यज्ञम् नक्षिणतोभेन्दुश्रविष्ठाः पुण्यर्नक्षत्रमपि संमिलामहादृन्दागन्ने क्षत्रस्य राजा वरुणाधिराजः नक्षत्राणागं शतभिड्मतिष्ठेऽभ्यो दीर्घमायः त्तः यज्ञम् न राजा वरुण उपयासो कन्म विश्वेभिजयन्विधानम् अज एकः पुरस्तानि विश्वाभूतानि प्रतिबोदमानः तस्य देवा प्रसमयन्ति सर्वे प्रोक्तपदासोमस्य गोपाः विभ्राजमानस्वधान उग्रः आन्दलक्षमलहक्याम् देवमजमेकपादम् प्रोष्टपदासो अनयन्ति सर्वे महिर्बुद्धयः प्रथमानये चेत् षेष्ठो देवानामुतमानुषाणाम् सम्राम् हना स्वमपास्व्यासः प्रोष्टपदासो अभिलक्षन्ति सर्वे तत्त्वारनेकमभिकर्म देवाः प्रोष्टपदासविरियानुवदन्ति हे बुद्ध्यम् वरिणत्यज्ञवन्तः यम् रक्षन्त्य नेपदेश्वान्वेदभूषा अन्नकम् रक्षन्तलोपम् वाजगम् समृतायजमानायज्ञम् चोपयाता शुभङ्गमिष्टौ त्रियमे विरस्पेयेः तन्नक्षत्रम्भविडायन्तौद्धासम्पृक्तौ विजटासमक्तौ यौ देवानाहौ विश्वस्य दौदामुलस्य गोपौ तौ नक्षत्रिजुरानोपजाताभ्याःमानम् भरणे भरन्तः देवा यस्मिन्नक्षत्रेभ्यन्त देवाः नियत्ते देवाजमादित्याः प्यायन्ते समनसा संयन्ते समानन्दन्तम् परिदासनादे वे तेनक्षत्रेऽमागमेतम् अयम् देवे ब्रह्मणा संविदानाः श्रो देववी चिन्तदानाः भोरात्रे अविवा वर्धयन्तः अविवात्मानमधिमुक्त्यागमेम प्रत्येक्षन्ते च पितापो महे मणदे तमोदिन सूर्यः क्षत्रमर्थिमौर्यस्य गमेमहे तन्नानक्षत्रमर्थिमदे भानुमत्यै च उच्चरदे उभयज्ञमिहागमदे प्र नक्षत्राय देवाय इन्द्रायेन्द्रगुम्भवामहे धनस्त्वम् वेदवत्तमम् चित्रम् अभिगर्मे मोषमातरम् इयम् विष्णुपरद्विष्णुः अर्गम् मोर्धाभवः अर्णो अर्वानुपतिरन्मिदमधेत्वम् अर्गवाहग्निस्पृष्टम् अर्गर्वागामयतान्नादो देवानागस्यामिदे नादमष्टागवानन्निरवदे नादो देवानामभवद् अग्रर्वे देवानामन्नादः यथा भवा अर्गदेवानामन्नादः एवम् भव एषमनुष्याणाम् युगेन देवम् वेद श्रोतृजहो ये अग्नये स्वाहा कृत्तिकाद्य स्वाहा अम्बाये स्वाहा दुलाय स्वाहा स्वाहा भयन्धे स्वाहायन्धे स्वाहा वर्णयन्ते स्वाहा सुपुणेकाय स्वाहा प्रजापय प्रजापदा तास्मा सृष्टाः पराचीरायन् आसाकम् रोहिणीमभ्यध्यायते स्वकामयत उपमावर्तयत समे निजागच्छे येति स एतम् प्रजापदये लोहिण्ये चरन्निरपदेशादमुपावर्तत समेन या गच्छत उपहपादेन प्रियमावर्तते सम्प्रियेण गच्छतेन दे। दे दे दे। देवम् वेद सोऽत्र दे। प्रजापतये स्वाहाहिण्ये स्वाहा रोचमाना ये स्वाहा प्रजाभ्यस्वाहे चोढधेनागम् राज्यमभिजय श्यामाकञ्चलम् पयसि निरपदेज्यमभ्यजेते समानानागम् हवे राज्यमभिजेदे हविदायतेन देवम् वेदजहोदे यस्वाहाभ्यस्वाहोभ्यस्वाहालुक्ते यस्वाहे रुद्रो वायङ्गमञ्चनम् पयशिनिलभवने ततो हेत वसुमानभवदे हविदायदेन देवम् वेद स्वजहोदे रुद्राय स्वाहाद्रा स्वाहाय स्वाहाभ्य स्वाहेति पुनर्पसभ्याम् चरन्दनपदे प्रजया मदुभिः सोत्रजहोदे अदित्ये स्वाहा पुनर्व स्वाहा भूत्ये स्वाहा प्रजा स्वाहेते बृहस्पतिपदये दृश्यामिने वारम् जलम् पयशि निरोपयम् ब्रह्मवर्त्यस्य भवदे ब्रह्म वर्तते हवे भवते यजेतेन हविजा देवम् वेद स्वात्रजहोदे बृहस्पति स्वाहाय स्वाहावर्गताहे देवासुराः संयत्तासन् हे देवाः सर्पेभ्यः श्वेतान् आनेताभिरेव देवताभिर्वानयन् एताभिरहवे देवताभिर्भिरन्द्रागव्य देवम् वेद सोक्तजुहोदे सर्पेभ्यस्वाहाभ्यस्वाहाभ्यस्वाहेति पितरोमयन्त पितृलोकरुद्रियामेतिभ्य मखाभ्य पुरोडाचकम् पितृलोकार्ध्वन् पितृलोके हवाध्नोति यतेन हविधा देवम् वेद स्वात्मजहोदि पितृभ्यस्वाहाभ्यः स्वाहा नस्वाहाभ्यः स्वाहारम्भेभ्यस्वाहेते अर्यमावागामयुवान्ने फल्गुणेभ्याम्भवदे ततो हवेन पशुवान् भवदे पशुवान् हवे भवते यजेतेन हविम् वेद स्वातृजहदे अर्यम्ने स्वाहास्वाहा भगो वा अगामयत भगे श्रेष्ठे देवानागस्वामिने दे। त्रयम् भगाय फल्गुनेभ्याम् चलन् ततो वेत भगे श्रेष्ठे देवानामभवजे हरे श्रेष्ठेजमानानाम् यजेन हविषा दे। योजेन देवम् वेद श्रोत्रजो भगाय स्वाहा फल्गुनेभ्यागस्वाहा श्रेष्ठाय स्वाहेजे सविता वा अगामयताम् सविता पित्रे निरोपदा सर्वे देवामित्रे हस्ताय पुरवडा सन्तास्मैवास्मै मनुष्यादयता भवने हविषायुतेन देवम् वेदजहोदे सवित्रे हस्ताय स्वाहा दृशते स्वाहा प्रणते स्वाहा प्रेक्षते स्वाहा प्रेर्भते स्वाहेतिकामेत चित्रम् प्रजाम्यन्देति सेतन् चित्राय पुरोडा समष्टागमालन्य चित्रम् प्रजामविन्ददा चित्रकम् हवे प्रजाम्यन्दते यजेतेन हविषा यजते देवं देवम् वेद स्वाहा चित्रायै स्वाहा चरित्राय स्वाहा प्रजायै स्वाहेति का कामचारमेषु लोके स्वभिजयद्वायवे निश्चा ये निश्चे दुग्धम्बयो निरवपदे लोकेष्वभ्यजेत् कामचारम्भवानेषु लोके स्वभिजेन योजेन देवं वेद स्वप्रजहोदे वायवे अस्ताः विष्ट्यायै स्वाहा कामदानाय स्वाः अभिजत्ये स्वायदि इन्द्राग्ने वा कामयेता श्रेष्ठम् देवानामभिजये वेदि सा वेदमिन्द्राग्निभ्याम् विशाखाभ्याम् शैक्षकम् हवेधमानानाम् अविषाेन दे। दे दे। देवम् वेद श्रोत्रजहो इन्द्राज्ञाभ्यागस्वाहा शैष्ठयस्वाह अभिषेत्ये स्वाहेतत्पौहर्णमास्याव्यम् निर्वपुजे कामो वैपौर्णमासे कामाज्यम् कामेनैव कामकम् समर्थे क्षिप्रमेण कंसकाम उपनमदे येन कामेन योर्णमास्ये स्वाहा स्वाहागत्ये स्वाहेति मित्रो वायमेषु लोकेष्वभिजये यमिते स यगम् मित्रायानुराधेभ्यश्चरम् निरपदे ततो वेदमित्रधेयमेषु लोकेष्वभ्यजेते मित्रधेयगम् भवानेषु लोकेष्वभिजेते यजेतेन मविषा यजते योजेन देवम् वेद सोऽत्रजहोजे निवाहा यस्वाः वेदये यमिते येष्ठाये पुरोणाजमेकामन्महाव्रीहीना देवानामभ्यजेन हवेशमानानामभिजये यज तेन हविधायते योजेन देवम् वेद स्वात्रजहो ये इन्द्राय स्वाहा ज्येष्ठाय स्वाहा ज्येष्ठाय स्वाहाभिर्धे स्वाहे प्रजापदर्वाग्रामेत मूलम् प्रजाम् विन्दे येति स एतम् प्रजापदये मूलाय जलम् निरवपदे ततोमेतमूलम् प्रजाविन्दय मोलकम् हवे प्रजाम् विन्दते यजेतेन हविदा यजते यूजेन देवम् वेद श्रोत्रे प्रजापदये अस्वाहास्वाहा स्वाहेति आहोपा कामयन्त समुद्रम् कामभिजयेति सा एतमभ्य षाढाभ्यस्तरपन्तु समुद्रम् कामभ्यजयन् समुद्रम् हवेकामभिजयेन अभिजायते यौजेन देवम् वेद सहस्रजहो ये अभ्यस्वाःभ्यस्वाहा समुद्रा यस्वाः गामायुस्वाहाहे विश्वे मे देवाः गामयन्त अनपदेयम् देवे जयमेश्वेभ्यो दे। देवेभ्योढाभ्यस्तरम् देवे, देवे निरवपमन् ततोनपदेयमजयन् दे अनपदेयगम् दे हवेदयतेन हविधा यजते सोतृजहो ये विश्वेभ्यो देवेभ्यस्ताः साढाभ्यस्ताः अन यस्ताः कामयता ब्रह्मलोकमपिजये तदेतम् ब्रह्मणे जलन्निरवपदे ततो वेदद्ब्रह्मलोकमपिजे ब्रह्मलोकम् हवा अभिजेदे यदे हविषा विजये योजेन देवम् वेद सोतृजहोजे ब्रह्मणे स्वाहाभिजये स्वाहालोकायस्ताः अभिजित्ये स्वाहे विष्णुर्गामेत पुण्यग््यश्लोकम् शृण्वेय न वा पापी कीर्तिरागच्छे सकेदम् विष्णवे शोणासन्त्रिकपालन्निरपवदे पुण्यग्यश्लोकमशुनदा नैनम् पापी कीर्तिरागच्छत् पुण्यकम् हवेश्वामकम् शृणु नैनम् पापी कीर्तिरागच्छति जते यौजेन देवम् देवं सोत्रजहोदे पृष्टदे स्वाहा शोणायै स्वाहा श्लोकाय स्वाहा सुगाय स्वाहेति वसवो वा कामयन्ता अग्रम् देवतानाम् पर्यामेति पर्यम् दे, वसोभ्यः सवेष्टाभ्यः पुरोटा समष्टागमानपवन् ततो वेदाग्रम् देवतानाम् अग्रगम् हवेदमानानाम् पर्ययतेन हविषायेन असुभ्यस्वाहास्वाहायस्वाः स्वाहे इन्द्रमाकामयताम् दृढस्यामिजे सगेदम् कृष्णानाम्भवत् े ब्रह्मवर्गतेभ्यश्चरन्मे ब्रह्मवत् तस्य भवते एजस्वे हवे ब्रह्मवत् करे भवते स्वाहा प्रोष्टपदेभ्यस्वाहा स्वाहा ब्रह्मवत्प्रदाय स्वाहे अहिर्वे बुद्धया कामयता इमाम् प्रतिष्ठाम् विन्दे समहरे बुद्धयाय प्रोष्टपदेभ्यः पुरोदासम्भूमिकपालन् निरवपदे इमाम् प्रतिष्ठाव इमाम् भवेत् प्रतिष्ठाम् विन्दतेन हविषा विदते यमुदेन देवम् वेद सोक्तजहो ये आर्ये बुद्धिजा यस्वाः प्रोष्ठपदे प्रतिष्ठाय स्वाहेति नाम यत पुसुमान् शामिजेदम् पुषमानभोदे स्वाह रेवत्ये स्वाहाभ्य स्वाहेति अश्विनौ वाहकामयेताम् श्रोत्रस्मिन् अनुभजरावस्या वेति तावेदमष्टिभ्यामष्टियिभ्याम् पुरोणाचन्विकपानन्य ततो वेतौ स्वाहत्रस्मिन् आधिराम सोत्रस्य हवा भवते यदि यौतेन देवम् वेद सोऽत्र च अष्टभ्यागस्वाहायद्गस्वाहा स्वत्रायस्वाहा स्वत्यये स्वाहे यमो वागम् राज्यमभिजयमायाग्भरणे दशरण्यवत्नागम् राज्यमभ्यजयते समानानागम् हवेराज्यमभिजयते यजेन हविषा योगेन देवम् वेद स्वजहोगे यमायस्ताः राज्यायस्वाः स्वाहे आज्यम् निर्वपदे कामो वामावास्याः कामाराज्यम् कामेणैव कामकम् समर्थ्यते सुप्रमेणकम् सकाम उपणपदे येन कामेण विजतेजहो्याये स्वाहाकामाय स्वाहागत्ये स्वाहे चन्द्रमावा कामयता अहोरात्रानर्थमासान्मासामृतोन् संवत्सरमाप्त्वा चन्द्रमधस्वायुजगम् सदागदा महात्वियामिति चन्द्रमधयश्याये कुरोडा सम्पञ्चशुकवादन्निरपपद ततो वेशोऽहोरात्रानमासान्मासानुवायुज्यगुन्तमाप्नो अहोरात्रान्मासानुगवान् चन्द्रमदस्वायुज्यगुङ्क लोकदामाप्नोति देवम् वेन चन्द्रमदे स्वाहाश्चाये स्वाहा अहोरात्रेभ्यस्ताः अर्धमासेभ्यस्ताः मासेभ्यस्ताः तुभ्यस्वाः संवर्धना यस्माहे अहोरात्रे वा नामलेनाम् अत्यहोरात्रे मुच्येव न अहोरात्रे आत्मयातामि ते एवमहोरात्राभ्याः चरन्निरमपदाम् प्रजानाम् वेहीणाम् शुक्लानाम् च कृष्णानाम् च समाद्योर्दुग्धे श्वेतायै च कृष्णायै च प्रतोरात्रे अमुच्यते नैने अहोरात्रे आप्लुता अति अमाहोरात्रे अमुच्यते नैनमहोरात्रे आप्लुतः के अभिजायतेन दे दे, देवम् वेद स्वातृजहो अह्ने अस्वा रात्रिये स्वाहा अतिमुक्ते उषावागामेन प्रियादित्यस्य सुभगाः स्यामिते सैज पटुते जलम् निरभवदे तदा वेदा प्रियादित्यस्य सुभगा भवते प्रिया हवेदमानानागम् सुभगा भवतेन हविता यजते होतेन देवम् वेदोदे उषते स्वाहा स्वाहा व्युषष्टे स्वाहा पृच्छन्ते स्वाहा प्युष्टाये स्वाहेति अथैतस्मै नक्षत्राय दलम् निर्पते यथा एवमहम् मनुष्याणाम् यथा हवा एतद्देवाना एव मनुष्याणाम् भवते यलेन हविडायुतेन देवम् वेद स्वदे नक्षत्राय स्वाहोदे स्वाहा स्वाहोदिताय स्वाहा स्वाहा भरते स्वाहा द्वादशे अस्वाहा तेजसे स्वाहा तपदे अस्वाहाय स्वाहेति शौर्योकामेन नक्षत्राणाम् प्रतिष्ठास्यामिति पर्यटकम् शौर्याय नक्षत्रेऽभ्यश्चरञ्जन भवति ततो अवेशनक्षत्राणाम् प्रतिष्ठा भवति प्रतिष्ठा अवेशमानानाम् भवति योगेन देवम् वेद सहत्रजहोरे सूर्यायस्वाहा नक्षत्रेऽभ्यस्ताः प्रतिष्ठाये स्वाहेते अधीतमदित्ये धनम् निर्वपदे यम् वा निजिः अस्यामेव प्रतिष्ठते स्वात्रजहोदे अनित्ये स्वाहा प्रतिष्ठाये स्वाहेते अधेतम् विष्णवे धनम् निर्वपदे यज्ञा वे विष्णुः यज्ञदेवान्तनः प्रतिष्ठते भक्तजहो इष्टदे स्वाहा यज्ञाय स्वाहा प्रे स्वाहे ओ